अथ प्रथमोऽध्यायः धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय सञ्जय उवाच दृष्ट्वा तु पाण्डवानेकम् व्यूढम् दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजावचनमब्रवी पश्येताम् पाण्डुपुत्राणाम् आचार्यमहति चमो व्यूढाम् द्रुपदपुत्रेण तव शिष्येण धीमत अत्र शूरा महे श्वास भीमार्जुनसमायुधि युयुधा नो विराटश्च द्रुपदश्च महारथः दृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवा पुरुजित्कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः युधामन्युश्च विक्रांतः उत्तमौजाश्च वीर्यवाण सौभद्रोद्रौपदेयाश्च सर्व एव महारथाः अस्माकं तु विशिष्टाय तान् निबोधद्विजोत्तम नायका मम सैन्यस्य सञ्ज्ञार्थम् तान् रवीमिते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामाविकर्णश्च सौ मदत्तिस्तथैव च अन्ये च बहवशूराः मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अपर्याप्तं तदस्माकम् बलम् भीष्माभिरक्षितम् भी पर्याप्तम् त्विदमेतेषाम् बलम् भीमाभिरक्षितम् अयनेषु च सर्वेषु यथाभागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य सञ्जनयन् हर्षम् कुरु वृद्धः पितामहः सिंहनादम् विनद्योच्चैः शङ्खम् दद्मौ प्रतापवान् ततः शङ्खाश्च भेर्यश्च पणवानक गोमुखाः सहसैवाभ्यहन्यन्त सशब्दस्तु मुलोऽभवत् ततश्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः पाञ्चजन्यम् हृषि भीमकर्मामृकोदरः अनन्तविजयं राजा कुन्ते पुत्रो युधिष्ठिरः नकुलः सहदेवश्च सुघोषमणिपुष्पकौ काश्यश्च परमेश्वासः श्रीखण्डे च महारथः दृष्टद्युम्नो धृष्टद्युम्नो विराटश्च सात्यकीश्चापराजितः द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते सौभद्रश्च महाबाहुः शङ्कादद्मुः पृथक् पृथक् सघोषो धार्तराष्ट्राणाम् हृदयानि व्यधारयत् नभश्च पृथिवी चैव तुमुलो व्यनुनादयन् अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ऋषि केशम् तदा वाक्यम् अर्जुन उवाच सेनयोरुभयोर्मध्ये रथम् स्थापयमेत्युत यावदेतान्निरीक्षेऽहम् योद्धु कामानवस्थिता कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे योत्स्यमानानवेक्षेऽहम् य एतेऽत्र समागताः धार्तराष्ट्रस्य दुर्बुद्धेः सञ्जय उवाच एवमुक्तो हृषी केशः गुडाकेशेन भारत स्वेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्मद्रोणप्रमुखतः सर्वेषाञ्च महीक्षिता उवाच पार्थ पश्येतान् समवेतान् कुरुनिति तत्रापश्यत्स्थितान् पार्थः पितृनथ पितामहः आचार्यान्मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखींस्तथ श्वशुरान् सुहृदश्चैव तेनयोरुभयोरपि तान् समीक्षस कोङ्क्तेयः सर्वान् कृपया परयाविष्टः विषीदन्निदमब्रवीद् अर्जुन उवाच दृष्ट्वेमम् स्वजनम् कृष्ण युयुत्सुं समुपस्थितम् सीदन्ति मम गात्राणि मुखञ्च परिशुष्यति वेपथुश्च शरीरे मे रोमहर्षश्च जायते गाण्डेवं स्रंसते हस्तात् त्वच्चैव न च मनः निमित्तानि च पश्यामि विपरीतानि केशव न हत्वा स्वजनमाहवे न काङ्क्षे कृष्ण न च राज्यं सुखानि च किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा येषामर्थे काङ्क्षितम् नः राज्यम् भोगसुखानि च तहिमावस्थितयुद्धे प्राणान्स्त्यक्त्वा धनानि च आचार्याः पितरः पुत्राः तथैव च पितामहः मातुलाश्वशुराः हेतोः किम् नु महि कृते निहत्यदर्थराष्ट्रान्नः का प्रेति पापमेवाश्रयेदस्माद् हत्वैतानातताहिनः तस्मान्नर्हा वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवा स्वजनम् हि कथम् हत्वा सुखिनस्याममाधव यद्यप्येतेन पश्यन्ति लोभोपहत चेतसः कुलक्षयकृतम् दोषम् मित्रद्रोहे च पातकम् कथम् न ज्ञेयमस्माभिः कुलक्षयकृतं कुलक्षयकृतम् दोषम् कुलक्षये प्रणश्यन्ति कुलधर्मासनातनाः धर्मे नष्टे अधर्मोऽभिभवत्युत अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुष्टासु जायते वर्णसङ्करः सङ्करो नरकायैव कुलघ्नानां कुलस्य पतन्ति पितरो येषाम् लुप्तपिण्डोदकक्रियाः दोषैरेतैकुलघ्ना वर्णसङ्करकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः उत्सन्नकुलधर्माणा मनुष्याणाम् जनार्दन नरके नियतम् वासः भवतीत्यनुशुश्रुमा अहो बतमहत्पापम् हन्तुम् स्वजनमुद्यतः यदि मामप्रतीकारम् अशस्त्रम् शस्त्रपाणयः धार्तराष्ट्रहारणे हन्युः तन्मे क्षेमतरम् भवेद् सञ्जय उवाच एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशरं शरं चापम् शोकसंविघ्नमानसः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः